नारदपुराणम् उत्तरार्थम् अध्यायम् 59 नैन् वसुरुवाच योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ज्योतीरूपो महाभागे कृष्णस्तल्लक्षणम् शृणु गोलोके स विभुर्नित्यम् ज्योतिरभ्यन्तरे स्थितः एक एव परम् ब्रह्म दृश्यादृश्यस्वरूपधृक तस्माल्लोके दुगावो हि गोपगोप्यश्च मोहिनि वृन्दावनम् पूर्वतश्च शतशृङ्गस्तथासरिद विरजा नाम वृक्षाश्च पक्षिणश्च पृथग्विधाः यावत्कालं तु प्रकृतिर्जागर्तिविधिनन्दिनी तावत्कालं तु गोलोके दृश्य एव विभुस्थितः लये सुप्ता गवाद्यास्तु न जानन्दि विभुं परं ज्योतिः समूहां तरदकमनीयवपुर्धरः शोरो जलदश्यामपीधकौशाम्बरावृदः द्विभुजो मुरलीहस्तकीदादिविभूषितः आस्ते कैवल्यनाथस्तु राधावक्षस्थलोज्ज्वलः प्राणाधिकप्रियतमास राधाराधितो नया राधाराधितो यया सुवर्णवर्ण देवी स चिद्रूपा प्राकृतेः परा तयोर्देहस्तयोर्नास्ति भेदो नित्यस्वरूपयोः दावल्यदुग्धयोर्यद्वत्पृथिवी गन्धयोर्यथा तत्कारणं कारणानां निर्देष्टुं नैव शक्यते वेदा निर्वचनीयं यत्तद्वक्तुं नैव शक्यते ज्योतिरन्तरथप्रोक्तं यद्रूपं श्यामसुन्दरं शिवेन दृष्टं तद्रूपं कदाचिद्ध्यानगोचरं तत्प्रभृति जानन्ति गोलोकाख्यानमीप्सितं नारदाद्या विधिसुते सनकाद्याश्च योगिनः श्रुतं ध्यायन्ति सर्वे न तैर्दृष्टं कदाचन साक्षाद् द्रष्टुं तु तपदे शिवोऽद्यापि सनातनः नैव पश्यति तद्रूपं ध्यायति ध्यानगोचरं कदाचित् क्रीडतोर्देवी राधा माधवयोर्वभूत् द्विधा भूदमभुत्तत्र वामङ्गं तु चतुर्भुजं समानरूपावयवं समानाम्बरभूषणं तद्वद्राधास्वरूपं च द्विधारूपमभूत्सदिं ताभ्यां दृष्टं तत्स्वरूपं साक्षात् पि तत्समौ चतुर्भुजं तु यद्रूपं लक्ष्मीकान्तं मनोहरं तद्दृष्टं तु शिवाद्यैश्च भक्त वृन्दैरनेकचः सकृतुब्रह्मणा दृष्टं देवीरूपं चतुर्भुजं सृष्टिकार्य प्रमुग्धेन दर्शितं कृपया स्वयं लक्ष्म्या सनात्कुमाराय वर्णितं विधिनन्दिनी विश्वसेनाय तूद्दिष्टं स्वरूपं तत्त्वमूर्तये नारायणेन विधिजे तदो ध्यायन्ति सर्वशः धर्मपुत्रेण देवेशि नारदाय समीरिदं गोलोकवर्णनं सर्वं राधाकृष्णमयं तथा यादुराधा विधिसुधे सा स्वयम् शिवरूपाभूत् कौतुकेन वरानने तद् दृष्ट्वा सह साश्चर्यम् कृष्णो योगेश्वरेश्वरः मूलप्रकृतिरूपम् तु ध्रे तत्समयोचितम् विपरीतं वपुर्धृत्वा वामदेवो मुदान्विदः ध्यायेदहर्निशम् देवम् दुर्गारूपधरम् हरिम् या राधा सैव लक्ष्मीस्तु सावित्री च सरस्वती गङ्गाजब्रह्मतनयेनैव भेदोऽस्ति वस्तुतः पञ्चधा सा स्थिता विद्याकामधेनुस्वरूपिणी य कृष्णोराधिकनाथ स लक्ष्मीश्च प्रकीर्तितः स एव ब्रह्मरूपश्च धर्मो नारायणस्तथा एवं तु पञ्चधारूपमास्तिदो भगवानजः कार्यकारणरूपोः सौ ध्यायन्ति जगदीतले तेन वै प्रेमसम्बद्धो विषयी यशिवः सदु राधेशं राधिकारूपं स्वयं सच्चित्सुखात्मकं देवते मूलप्रकृतिरीश्वरी कृष्णरूपा महाभागे दैत्यसंहारकारिणी स दी दक्ष सुधा भूत्वा विषयेशं शिवं श्रुता भर्तुर्विनिन्दनं श्रुत्वा सदि त्यक्त्वा कलेवरं क्षेत्रे मेनायां पुनरेव च ततस्तक्त्वा तपो भद्रे शिवप्रदा स्तुध कृष्ण राधासौ शिवमोहनतत्परा जगदम्बास्वरूपा च यदो माया स्वयं विभुः अत ब्रह्म सुदे स्कन्दो गणपतिस्तद्धा स्वयं कृष्णो गणपतिः स्वयं स्कन्दः शिवो भवद शिवमेवं वदन्त्येके राधारूपं समाश्रितं कृष्णवक्षस्थलस्थानम् तयोद्भेदो न लक्ष्यते कृष्णो वा मूलप्रकृतिशिवो वाराधिका स्वयम् एवं वा मिथुनं वापि न केनापीतिनिश्चितम् अनिर्देश्यन्तु यद्वस्तु तन्निर्देष्टुं न च क्षमम् उपलक्षणमे दद्धि यन्नि देशनमैश्वरं शास्त्रं वेदाश्च सुभगे वर्णयन्ति यदीश्वरम् तत्सर्वं प्राकृतं विद्धिनिर्देष्टुं शक्यमेव च अनिर्देश्यं तु यद्यपि तन्नेतीति निषिद्धये निषिद्धयेते निषेधशेषस्य विभुकीर्तितशरणागतैः शास्त्रं नियामकम्भद्रे सर्वेषां कर्मणां भवेद कर्मे तु ईश्वरांशो विभुस्वयं प्रकृतेस्तु परो नित्यो मायया मोहिदशुभे यस्तु साक्षी स्वयं पूर्ण सहानुशयितास्थितः न वेत्ति तं चानुशयी वेदानुशयिनं सदु शङ्कचक्रगदापद्मैरलङ्कृतभुजद्वयाः प्रपन्नास्तेदु विज्ञेया द्विविधा आर्त दृप्तविभेदेन तत्रार्ता असखा असहा मदाः तृप्ता जन्मान्तरस्वहा निर्भया सदसज्जनाः ये प्रपन्नामः लक्ष्म्यां सखि भावं समाश्रिताः तेषां मन्त्रं प्रवक्ष्यामि प्रयान्तिविधिबोधितम् गोपीजनपदस्यान्दे वल्लभेदि समुच्चरेद चरणं चरणं पश्चात् प्रपद्ये पदमीरयेद षोडशार्णो मन्द्रराजसाक्षाल्लक्ष्म्या प्रकाशितः पूर्वं शनकुमाराय शम्भवे तदनन्तरं सखिभावं समाश्रित्य गोपिकावृन्दमध्यगम् आत्मानं चिन्तयेद्भद्रे राधा माधवसंज्ञकम् गुरु गुरुश्रीश्वरभावेन वर्तेदप्रणदः सदा वैष्णवेषु च सत्कृत्य तदा समतयान्यदः दिवानिशं चिन्तनं च स्वामिनोः प्रेमबन्धनाद कुर्यां पर्वस्वपि सदा यात्रा पर्व महोत्सवान् यदि श्रीबृसन्नारदीयपुराणोत्तरभागे वसुमोहिनी संवादे पुरुषोत्तममाहात्म्यं नाम एकोनषष्टितमोऽध्यायः ॐ